हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे एकोनत्रिंशत् सर्गः सीतया श्रीरामम् प्रति तेन सहात्मनो वनगमनौचित्यस्य प्रतिपादनम् एतत्तु वचनम् श्रुत्वा सीतारामस्य दुःखिता प्रसक्ताश्रुमुखी मन्दम् इदम् वचनम् ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति गुणान् इत्येव तान् विद्धि तव स्नेह पुरस्कृता मृगा सिंहागयाश्चैव शार्दूला शरभस्तथा च मरः ये चान्ये वनचारिणः अदृष्टपूर्वरूपत्वात् सर्वे तव राघव रूपम् दृष्ट्वा पसर्पेयुः तव सर्वे हि बिभ्यति त्वया च सह गन्तव्यम् मया गुरुजनाज्ञया त्वद्वियोगेन मे राम त्यक्तव्यम् इह जीवितम् न हि माम् त्वत्समीपस्थाम् अपि शक्नोपि राघव सुराणामीश्वरस्य शक्त प्रहसेतु मोजसा पतिहीना तुया नारी न सा शक्ष्यति जीवितुम् कामेवम् विधम् राम त्वया मा निदर्शितम् अथापि च महाप्राज्ञा ब्रह्मणानम् मया श्रुतम् पुरा पितृगृहे सत्यम् वक्तव्यम् किलमेव ने लक्षणिभ्यो द्विजातिभ्य श्रुत्वाहम् वचनम् गृहे वनवासकृतोत्साहुः नित्यम्बेव महाबल आदेशो वनवासस्य प्राप्तव्यल स्वातया सह भर्त्राहम् यास्यामि प्रिय नान्यथा कृता देशः गमिष्यामि त्वया सह कालश्चायम् समुत्पन्न सत्यवान् भवतु हि जानामि दुखाने बहुधा किल प्राप्यन्ते नियतं वीरे पुरुषेयकृतात्मभिः कन्यया च पितुर्गैः वनवास श्रुतो मया दीक्षिण्या शमवृत्ताय मम मातुरिहाघृतः प्रसादितश्च वै तम्मे बहूतिथम् प्रभो गमनम् वनवासस्य काङ्क्षी तम् हि सह कृतक्षणाहम् भद्रम् गमनं गमनम् प्रति राघव वनवासस्य शूरस्य ममाचर्य हि रोचते शुद्धात्मन् प्रेमभावाधि भविष्यामे विकल्मष भर्तारम् अनुगच्छन्ति भर्ता हि परदैवतम् प्रेत्यभावे हि कल्याण सङ्गमो मे सदा श्रुतिर् श्रूयते पुण्य ब्रह्मणानाम् यशस्विनाम् इह लोके च पितृभिः या स्त्रीयस्य महाबलः अद्भिधर्ता स्वधर्मेण स्वेत्य भावेपि तस्य सा एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पतिव्रताम् नाभिच नेतुम् त्वम् माम् केनेहेतुना भक्ताम् प्रति वृताम् दीनाम् मांस माम् सुखदुःखयो नेतुम् अर्हसि काकुत्स्थ समान् सुखदुःखिनीम् यदि माम् दुःखिताम् एवम् वनम् नेतुम् न चेच्छसि विषमग्निम् जलम् वाहम् आस्थास्य मृत्युकारणात् एवम् बहुविधम् तन्ता याचते गमनम् प्रति दानुमेने मह म् नेतुम् विजनम् वनम् एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता स्नापयन्तीव गामृष्णैः अश्रुभि नयनच्युतैः चिन्तयन्तीम् तदा तु निवर्तयितुमात्मवान् क्रोधाविष्टाम् तु वै देहीम् काकुत्स्थो बौह इत्याश्री श्रीमद् रामायणे वाल्मीकीयादिकाव्ये उद्धराखण्डे कोनत्री च सर्गे श्रीसीतारामचन्द्रारमणमस्तु